नारायणीयं दशकं तर्टि त्री मीटर् वसन्ततिलकं वैवस्वदाख्यमनुपुत्र न ना भागजात नाभागनामकनरेन्द्र ना सुदोऽम्बरीषः सप्तार्णवावृतमही दयितोऽभिरेमे त्वत्सङ्गिषु त्वयिजमग्नमना सदैव प्रीदमे वितन्व्य भक्न चिरादृद प्रसाद येनाचन मृतेप्यभिक्षणा चक्रम भवान्विदार सहस्रधार सदशी व्रतम भवदर्चनार्थं वर्षं दधौ मधुवने यमुनोपकण्ठे पत्न्या समं सुमनसामहदीं विदन्वन् पूजान् द्विजेषु विसृजन् पशुषष्टिकोटिं तत्राधपारणदिने भवदर्चनान्ते दुर्वाससास्यमुनिना भवनं प्रपेदे भोक्तुं वृतश्च स नृपेण परार्थिशीलो मन्दं जगामयमुनां नियमान्विधास्यन् राज्ञाधपारणमुहूर्तसमाप्ति केदाद्वारैव पारणमकारि भवत्परेण प्राप्तो मुनिस्तदध दिव्यदृशा विजानन् क्षिप्यन् क्रुधोद्धृतजडो कृत्याम। भुवनं दहन्दीमग्रेऽभिवीक्ष्य नृपतिर्नपदा च कम्बे त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते कृत्यानलम् शलभयन्मुनिमन्वधावीद धावन्नशेषभुवनेषु भियास विश्वत्रचक्रमपिते विश्वत्र चक्रमपि ते गतवान्विरिञ्जं ययौ स च भूयो भवन्निलयमेत्य मुनिं न मन्दं प्रोजे भवानः मृष्ये ननुभक्तदासः ज्ञानं तपश्च विनयान्वितमेव मान्यं याह्यम्बरीषपदमेव भजेदिभूमन् तावत् समेत्य मुनिना स गृहीतपादो सृत्य भवदस्त्रमसावनौषीद चक्रे गदे मुनिरदादखिलाशिषोऽस्मै त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् राजा प्रतीक्ष्य मुनिमेक समामनाश्वान् सम्भोज्य साधुतमृष्यं विसृजन् प्रसन्नम् भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रदोऽभूत् सायुज्यमाप च स मां सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द